ब्रह्मांड ब्रह्माण पूर्वभागंध्या नैमिषाख्यान कथनमचन पुनः सूदमृषस्ते तपोधना क्रम कथंच कथवर्तत आचचक्षे पुराणं च कथं तत्सप्प्रभञ्चनः आचख्यौ विस्तरेणैव परकौतूहलम् हिनः इति सञ्चोदितः सूदः प्रत्युवाचशुभं वचः शृणुध्वं यत्र ते धीरा मेनिरे मन्त्रमुत्तमं यावन्तं चाभवत्कालं यथा च समवर्तत सिसृक्षमाणो विश्वं हि यजदे विसृजत्पुरा सत्रं हितेति पुण्यं च सहस्रपरिवत्सरान् तपो गृहपतेर्यत्र ब्रह्मा चैवा भवत्स्वयं। इडाया यत्र पत्नीत्वं चामित्रं यत्र, यत्र बुद्धिमान् मृत्युश्च गे महातेजास्तस्मिन् सत्रे महात्मनां विबुधास्थ्योषिरेत्तत्र सहस्रपरिवत्सरान् ब्रमदो धर्मचक्रस्य यत्र नेमिरशील्यद कर्मणा सेन विख्यातं नैमिषं मुनिपूजितं यत्र सा गोमदी पुण्या सिद्धचारणसेविता रोहिणी स सुता तत्र गोमती सा शक्तिर्ज्येष्ठा समभवद्वसिष्ठस्य महात्मनः अरुन्धत्या सुधायात्रा दानमुत्तमतेजसः कल्माषपादो नृपतिर्यत्र शक्रश्च शक्तिना यत्र, यत्र वैरं समभवद्विश्वामित्रवसिष्ठयोः अदृश्यन्त्यां समभवन्मुनिर्यत्र पराशरः पराभवो वसिष्ठस्य यस्य ज्ञाने ह्यवर्तयद तत्र निरेशैलं नैमिषे ब्रह्मवादिनः नैमिषं जज्ञिरे यस्मान्नैमिषीयास्तदस्मृताः तत्सत्रमभवत्येषां समाद्वादश धीमताम् कुरुरवसि विक्रान्ते प्रशासदि वसुन्धराष्टादशसमुद्रस्य द्वीपानश्रन्कुरुवाः तुतोष नैव रत्नानां लोभादिदिहि न श्रुतम् उर्वशी च गमेतं च देवदूतप्रचोदिता आजकारज तत्सत्रमुर्वश्या सः सङ्गदः तस्मिन्नरपदौ सत्रे नैमिषीयाः प्रचक्रिरे यं गर्भं गंगा गङ्गा पावकाद्दीप्ततेजसम् सत्तुल्यं वर्वदे न्यस्तं हिरण्यं समपद्यत हिरण्मयं तदश्चक्रे यज्ञवाढं महात्मनाम् विश्वकर्मा स्वयं देवो भावनो लोकभावनः सप्रविश्य ततः सत्रे तेषाममिततेजसाम् ऐढःपुरुरवा भेजे तं देशं मृगयाञ्चरन् तं दृष्ट्वा महदाश्वर्यं यज्ञवाडम्भिरन्मयम् ोभेन हदविज्ञानस्तदादुमुपाक्रमद नैमिषेयास्तदस्तस्य चुक्रुधुर्नृपतिम्भृशं निजघ्नुश्चापि तं क्रुद्धाः कुशवज्रैर्मनीषिणः तपोनिष्ठाश्च राजानं मुनयो देवचोदिताः कुशवज्रौर्विनिस्पिष्टः स राजाव्यजहात्तनुम् और्वशेयैस्तदस्तस्य युद्धं चक्रे नृपो भुवि न महात्मानं पितरं यं प्रचक्षते स धर्मशीलो महीपतिः आयुराय भवायाग्र्यमस्मिन् सत्रे नरोत्तमः शान्दयित्वा दुराजानं तदा ब्रह्मविदस्तदा सत्रमारेभिरेकर्तुं पृथ्वीवत्सात्ममूर्तयः बभूव सत्रे तेषां तु ब्रह्मचर्यं महात्मनां विश्वं शिसृक्षमाणानां पुरा विश्वसृजामिव वैखानसैःप्रियसखैर्वालकिल्यैर्मरीचिभिः अजैश्च मुनिभिर्जातं सूर्यवैश्वानरप्रभः पितृदेवाप्सरसिद्धैर्गन्धर्वोरकचारणैः भारतैः शुशुभे राजा देवैरिन्द्रसमो यथा स्तोत्रशस्त्रैर्गृहैर्देवान् पितॄन्पितृश्च कर्मभिः आनर्चुष्म यथा जातिगन्धर्वादीन् यथा विधि आराधने स स स्मार तथ कर्मान्तरेषु च जगुस्सामानिगन्धर्वा ननृतुश्चाप्सरो व्याज्यक्रोर् व्याजह्रोर्मुनयो वाचं चित्राक्षरपदां शुभां मन्त्रादि तत्र विद्वांसो जजपुश्च परस्परं विदण्टावचनैश्चैव निजघ्नुः प्रतिवादिनः ऋषयश्चैव विद्वांसशब्दार्थन्यायगोविदाः न तत्र हरितं किञ्चिद्विविह्यो ब्रह्मराक्षसाः नैव यज्ञहरा दैत्या नैव वाजमुखास्त्रिणः प्रायश्चित्तं दरिद्रं च न समजायद शक्तिप्रज्ञा क्रिया योगैर्विधिराशिष्वनुष्ठितः एवं च ववृद्धे सत्रं द्वादशाब्दं मनीषिणाम् ऋषीणां नैमिषीयाणां तदभूदिव वज्रिणः वृद्धाद्याहृत्विज्यो विराज्योदिष्टो मान् पृथक् पृथक् चक्रिरे पृष्ठगमनाः सर्वानयुधदक्षिणान् समाप्तयज्ञो यत्रास्ते वासुदेवं महाधिपन् पप्रच्छुरमिदात्मानं भवद्भिर्यदहं द्विजः प्रचोदितस्वंशार्थं स चता न ब्रवीत्प्रभुः शिष्यस्वयं भुवो देव सर्वं प्रत्यक्षदृग्वशी अणिमादिभिरष्टाभिसूक्ष्मैरङ्गैः समन्वितः तिर्यग्वादादिभिर्वर्षैः सर्वाल्लोकान् बिभर्ति यः सप्तस्कन्धा हृदा शाखात् सर्वतो याजराजरान् विषयैर्मरुदो यस्य संस्थिताः सप्तसप्तकाः व्यूहत्रयाणां सुधानां कुर्वन् सत्रं महाबलः तेजस स्वाप्युपायानां दधाधीहशरीरिणः प्राणाद्यावृत्तयः पञ्चधारणानां स्ववृत्तिभिः पूर्यमाणशरीराणां धारणं यस्य कुर्वदे आकाशयो निर्द्विगुणशब्दस्पर्शसमन्वितः वाचोरणिसमाख्यादा शब्दशास्त्रविलक्षणैः भारत्याश्लक्ष्णया सर्वान्मुनीन् प्रह्लादयन्निव पुराणज्ञा सुमनः सः पुराणाश्रययुक्तया पुराणनि यदा विप्राक् कथामकथयद्विभुः एतत् सर्वं यथावृत्तमाख्यानं द्वि च सत्तमाः ऋषीणां च पुराणं ज्ञानमुत्तमं देवतानां ऋषीणां च सर्वपापप्रमोचनम् विस्तरेणानुभूर्व्या च तस्य वक्ष्याम्यनुक्रमम् इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे प्रथमे प्रक्रियापादे नैमिषाख्यानकथनं नामद्वितीयोऽध्यायः ॐ